शशापतञ्च संक्रुद्धो बिभत्सुर्जिह्मगामिनं पावको वासुदेवश्चाप्यप्रतिष्ठो भविष्यसि ततो जिष्णुः सहस्राक्षं खं वितत्याशुगैशरैः योधयामासङ्क्रुद्धो वञ्चनां तामनुस्मरन् देवराजोपितं तम् दृष्ट्वा संरब्धम् समरेऽर्जुनम् स्वमस्त्रमसृज तीव्रम् छादयित्वाखिलम् नभः ततो वायुर्महाघोषः क्षोभयन् सर्वसागरान् वियत्स्थो जनयन् मेघाञ्जलधारासमाकुलान् ततो शनिमुचो घोरांस्तडिस्तनितनिःस्वनान् तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् वायव्यमभिमन्त्र्याथ प्रतिपत्तिविशारदः तेनेन्द्राशनिमेघानाम् वीर्यौजस्तद्विनाशितम् जलधाराश्च ताः शोषम् जग्मुर्नेषुश्च विद्युतः क्षणेन चाभवद्व्योम सम्प्रशान्तरजस्तमः सुखशीतानिलवहम् प्रकृतिस्थार्कमण्डलम् निष्प्रतीकारहृष्टश्च हुतभुग्